वान् द्वयम साधयाम यपान् त्वमन् स्मं सादयां नपान्त्वा ज्योतिष सादयां जपान् त्वायने सादयां यनवे सदने सेदसमुद्रे सदने सेद सरिले सदने सेधापां छे सेदापाकं सधिष सेधापान्ता सदने नपान्ता सधच्छय सादयां जपान्ता पुरेशय सादयां नपान्त्वायोनौ सादजां जपान्ता पार्श्वसि सादयामि गा क्षत्रेयं जगति छन्दो नष्टप्च्छन्दः पङ्क्तिच्छन्दः यम् पुराभवस्तस्य प्राणो भौ वाजनो वसन्तः प्राणाजनो गाजत्रे वासन्ती गायत्रिजैगाजक्रं गाजत्रादुपागुंसुरुपागुंशोऽभृत्रभृतो रथं तर्गुं रथं तरापतिगृहेतजातया प्राणं गृह्णामे प्रजाभ्योऽयं दक्षिणा विश्वकर्मा दस्य मनोष्वकर्मणं ग्रेष्म मानसृष्टो ग्रहेष्मे पञ्चदशः पञ्चदशात् बृहद् बृहतो भरद्वाजल प्रजापतिगृहे गृह्णामि चाक्षुषाणि जगति जगत्तारिक्षमृक्षमात् शुक्र शुक्रप्तदशः सप्तदशात् तैलोकं वैमा विश्वामित्र ैमुत्तरात् सुभस्तस्य श्रोत्रगुंसौभगुंष्टुच्छारुभरंशुंसाद्वैराजं वैराजापतिं गृह्णामि प्रजाभ्यैस्तस्यैवान् मातेहमन्तो निधनवन्धनवदा तृणवत्रयस्त्रिगुंसौ तृणवत्रय स्त्रिगुंसाभ्या गुंसा क्वररैव देशाः क्वररैवताभ्याम् विश्वकर्मल प्रजापतिविधे त्वया वाचम् गृह्णामि दस्ता न गृषर्दक्षिणा दिशाङ्क्रीष्मरुतोणामिन्द्रो देवता क्षद्वं द्रविणं पञ्चदश स्तोमस्स उसप्तदश वर्तनिर्दित्यवाग् स्वेतायाणां दक्षिणाद्वातो वात सनातनऋषिः प्रदेचेदुषां वरुषा ऋतूणां विश्वे देवताविर्लविणगुं सप्तदश स्तोमस्तकविगुंस पुत्र नववर्तनस्तुरुषिरोगुं हृतो बृहस्पतिसपुत्र युंसवर्तने स्मिन् ब्रह्मन्नस्मिन् क्षत्रे अस्मिन् गन्मन्नस्याम् देवहूत्याम् ध्रुवक्षुपयो निर्ध्रुपासिद्धृपाञो निमासेतसाध्या वृक्षस्य एतम् प्रथमम् पुरस्तादश्विनाः ध्वर्यो साधयता स्वे दक्षय दक्ष विदे हसे तदेव भद्रा पशिवे बृहते रणा स्वास्था दनवासं विशस्तविदेवैधि सोनभा सुषैवास्मिना ध्वनि साधगतामिहत्वा गुलाजने वसुमदेव योर्धा रजन्नावर्ध सुवीरम् अपामदिम् दुर्मम् बाधमाना राजस्पोषे यज्ञपति मा भजन्ते सुमर्देशमश्विनाः ध्वजोसा जगदामि हत्वा अग्ने स्फुरे शमसिते भजानीताम् त्वा विश्वे अभिकृन्तु देवाः स्वामपृष्ठा हृदवदे हसेत प्रजापदस्मे द्रविणा जगस्वाश्विना ध्वर्जोसा धाजपृथविजानाभिर्मिष्टम् भने दिशामधिपद्मे अवामधि विश्वकर्मादर्शिरश्विनाध्वर्यो साधयतामि हत्वा सजोर् <Sess> आनम् मे बाह्यमानम् मे पाहिम् मे पाहि चक्षुर्मपुर्व्या विभाहि श्रोत्रम् मे स्वगतापस्मिन्वौषधेऽर्जन्मद्भिहि चतुष्पादमधिवा वृष्टिमे रजा यस्त्रेभोच्छन्दो धेनुर्वगदे छन्दोच्छन्दोस्तो विफलं छन्दोर्वयो विशालवय स्तन्द्रन्दो छन्दःन्दो मिष्टम्पतिष्ठन्दः क्षत्रम् मलोमलम् गञ्छन्दो विश्वकम् मावजः परमेष्ठी छन्दो मोद्भावलः प्रजापतिच्छन्दः मायामिष्टकां हतम् युगम् पृष्ठेन पृथिवी न्तरिक्षस्य पृष्ठे सोहिमते मायान्तरिक्षमन्तरिक्षान्तरिक्षंहान्तरिक्षं मार्विश्वस्मे प्राणायां यानायो धानाय प्रतिष्ठाय चरित्राय वायुस्वाभि पातु मह्या स्वस्यां ते प्राचेदिग्विराटसि दक्षिणादिक्सम्राटसि प्रदे चेदिक्स्वराडस्तु दे चेदिगच्छेति गायुर्मे वाहि प्राणम् मेवाह्यमाणम् मे वाहिणम् मे वाहि चक्षुर्मे वाहि श्रोत्रम् मे वाहि मनोमे चिन्बवाचम् मे चिन्बात्मानम् मे वाहि ज्योतिर्मेच्छा मा छन्दः प्रभा छन्दः प्रतिमा छन्दोः श्रेविच्छन्दः पन्दिश्छन्द पुष्णहाछन्दो बृहदे छन्दो पृष्टुच्छन्द विराच्छन्दो गायत्री छन्दः स्त्रष्टछन्द जगते छन्दः पृथमे छन्दोन्दरिक्षन्दो जौ्छन्दः समाच्छन्दो नक्षत्राणि छन्दो मनश्छन्दो वाः कृषिश्छन्द हिरण्य छन्दो गौ छन्दो जाछन्द स्वछन्दः अरङ्गम् देवता वादो देवता सोरुजो देवता चन्द्रमा देवता वसमो देवता रिद्रा देवता दृत्या देवता विश्वे देवा देवता मरुदो देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता मोर्धासिराढ्रुवासि धरुणा धरणे धर्यसि ौदशे त्वा बलायत्वा आशुस्त्यद्धान्तः पञ्चदशोऽ सप्तदशः प्रदोहत् तिरष्टादश नवदशोऽपद्वस्तुंसो धर्मजयग विपुंसो भरणस्त्रयोभिगुंशो योनिश्चतुर्भिघुंसो गर्भाः पञ्चविगुंसवोदस्तृणवः क्रतुकर्त्रिगुंसः प्रतिष्ठात्रयस्त्रिंशोश्च पञ्चद्रिगुंशो नाकश्चत्रिकुंशो विभक्तोंशो छद्वश्चतुष्टो महा ग्नेर्भागोऽसि देक्षाजा आधिपत्यम् ब्रह्मस्मृतम् चमविन्दस्य भागोऽसिष्णोराधिपत्यम् क्षत्रज्ञ स्मृतम् पञ्चदशस्तोमो चक्षसाम् भागोऽसि धातुराधिपत्यम् चरित्रज्ञस्मृतम् सप्तदशस्तोमामित्रस्य भागोऽसि वरुणस्याधिपत्यम् दिवो दृष्टिर्वाता श्रुतांसस्तोमो नित्ये भागोऽसिष्ण आधिपत्यमानस्मृतम् तिणवस्तोमा गोषि रुद्राणामाधिपत्यं चतुष्पा चतुर्भिगं सस्तोम आदित्यानां भागोषि मरुदामाधिपत्यं गर्भास्तु पञ्चभिगं स स्तोमो देवस्त च विदुर्भागो गृहस्पदेधिपत्यश्चतुष्टोमस्तोमो यामानां भागोमाधिपत्यं व्रजासुदाश्चतुश्चत्वारिकं भागो विश्वेषां त्रयस्त्रिंशस्तो महा एकयास्तु वद प्रजा अधिज प्रजापतिरधिपतिरासेत् तिरस्तु वद ब्रह्मा सृजलम् ब्रह्मणस्पदिरधिपतिरासेत् पञ्च फिरस्तु वद भूताङ्गसृज्जण्ड भूतारधिपतिरासेत् ृज्यं दधाताधिपतिरासे नवभिरस्तुवत विदरासृजन्तादितिरधिपज्ञासेदेकादशभिरस्तुवदत्तवसृज्यन्तात्तवोऽपदिरासे त्रयोदशभिरस्तुवदमासा असृज्यन्दवत्सरापतिरासेत् पञ्चदशभिरस्तुवद क्षत्रेन्द्रोऽधिपतिरासे सप्तदशभिरस्तुवद प्रसवो सृज्यन्तदशभिरस्तुवद सूसृज्येतामहोरा त्रे अधिपत्नी आस्तामेकमिगुं सत्यास्तु पदैकसभा पशव सृज्यन्त वरुणाधिपतिरासेत् त्रयोभिगुं सत्यास्त्वक्षुद्राः पशव सृज्यन्त भूषाधिपतिरासेत् पञ्चमेगुं सत्यास्त्व सृज्यन्त पादधिपतिरासेत् सप्तमिगं सर्जास्त्वं वसव रुद्रा आदित्या अनुयायन्तेषामाधिपत्यमासेत् जास्तु पदपस्पदजा सज्यन्तत्रिगुंशतास्तु पदः प्रजा असृज्यत्रयस्त्रिविंशतास्त्वशाम्यम् प्रजापतिः परमे वसा प्रथमा विजौच्छदन्तरस्याम् च रति प्रविष्टा वधोर्जाननैत्रे त्रयम् सन्ते छन्दस्वति पुषशापेऽपिशाने समानयो सञ्चरन्ति सूर्यपत्नी विचरद प्रजानति केतुम् कम्पाने अजरे भूरिरेतसा ऋतस्य मन्था मनुदिस्रहास्रयो कर्मासो अनुज्यो जषागुः वजामेका रक्षत्योर्जमेका व्रतमेका रक्षति देव यूना चतुष्टोमा अभवजस्य पक्षापृषयो भवन्ति गायत्रेम् द्रष्टुभम् जगतिमनुष्टुभम् बृहदर्कम् जानास्वराफलम् इदम् पञ्चपर्ध्याता विदधा विदम् यत्त्वा सा विस्व श्रीरजनपञ्च पञ्च सामयन्ति प्रयवेण वञ्च नानारूपाणि कृतभो वसानाः सत्स्वसारुपयन्ति प्रतिमुञ्चमानाः पितुकुस्तम्पते कवचः मध्ये षन्दसः फलियन्ति भास्वतीः ज्योतिष्मते प्रतिमुञ्चते सूर्यस्य व्रतानि विपश्यन्ति पशवो जायमानारूपा जा मातुरस्या उपस्थेः एकाष्टका तपसादप्यमाना जानगर्भम् जा महिमानमिन्द्रम् तेन दस्योऽन्यसहन्तदेवाहन्तासुराणामभवत्सजीभिः अनानुजामनुजाम् मामकर्तसत्यम् वरञ्जन्विच्छदेतत् भोजासमस्तसमतो यसा योजमन्यावो अन्यामलिमा प्रयुक्ता सुमतौ विश्ववेदाष्टप्रतिष्ठामभिदग्धम् भूयासमस्य सुमतौ यथा योजमन्यावो अन्यामतिमा प्रयुक्ता पञ्चविशुष्टेन पञ्चदोहागाम् पञ्च नाम्न्ये मृतवो नुपञ्च पञ्चदिशः पञ्चदशेन क्लुप्ताः समानमोहोऽध्नेरभिलोकमेकम् हृदस्य गर्भः प्रथमाव्यौ शिष्यवामेकामहिमानम् विभत्ति सूर्यस्यैकाशरथनिष्कृतेषु धर्मस्यैकासभितैकान्नियच्छति या प्रथमाव्यौच्छत्साधेनुरभवद्य मे सा नः पयस्वती सूक्ष्मोत्तरामुत्तरापुंसमाम् शुक्रवृषभा नभसा ज्योतिषागाद्विश्वरूपाशबलिरग्निकेतुः समानमर्थक्यस्वस्यमाना जराम जरा जरामजरपुषागाः ऋतूनाम् पत्नीः प्रथमे जमागादनान् नेत्री जनेत्रे प्रजानाम् एका सदैवषो यस्य चेहात्वम् जनयसि सर्वमन्यते अग्ने जातान् प्रमदानः सपत्नान् अस्मे लीधिः सुमनातुम् सर्वम् त्रिवरोष बुद्धिः सहसा जातान् प्रणुदानः सपद्मान् प्रत्यजाताञ्जातवेदो मुदस्व अधिनाम् ब्रोहि सुमनस्य मानो वजग्म प्रणुदानः सपद्मान् चतुश्चत्वारि गुंशस्तो मो वर्चो द्रविणगुं षोडशस्तो भोजो द्रविणम् छन्दो परिभश्चन्दम्भोन्दः परिभोन्दोन्दोन्दसिन्धन्द समुद्रं छन्दः संयच्छन्दो विजन्द्रोन्दो निकायश्चन्दो ्छन्दो विश्वन्दःवा्छन्दश्चिश्छन्दो दूरोहणस्तन्द्रन्दोङ्काङ्गः अग्निर्णिजङ्घनद्रविणश्रुर्विपन्यया समिध्यः शुक्र आहुतः त्वं सोमासि सत्पथिस्त्वकिं राजोतभद्रः त्वम् भद्रो असि क्रतुः भद्रा ते अग्ने स्वनेकसन्दृग्घोरः सतो विषुणश्च चारुः नयत्ते शोचिस्तमसावरम् तनध्वस्मानस्तनिविरेपाधुः भद्रम् ते अग्ने सिन्ननीकमुपाक सूर्यस्य वृषदृशे दृशेण क्लया चिररूपोक्षितम् अन्नम् सैनानीकेन सु विदप्तो अस्मेजष्टा देवागुम् आयजिष्ठस्वस्ति अलब्धो गोपा पृतनः परस्मा अग्नेः स्वस्ति नो दिवो अग्ने पृथिविजा विश्वाजुद्धे हि यजसाय देव यत् श्रीमहि दिविजा तप्रशस्तम् तदस्मा सुद्रविणन्धे हि चित्रम् यथाहो धर्मनुषो देवता यज्ञेभिः सो नो सह सो हेवा नो अद्य समनासमानान् सन्नग्नपुषतो यक्षि देवान् अग्निमेडे पुरोहितम् यज्ञस्य देवमृद्विषम् होदारकम् रत्नधातमम् विषासो मद्युमागुम् असि वृषादेव वृषव्रतः वृषा धर्माणि यो नो मत्वा भसवो दुरुषणाजु स्थिरः मरुतो जिखागुम् सात् दृहः पाशम् प्रति समुचेष्टनपिष्ठेन तपसा हन्त संवत्सरेण मरुतः स्वर्गा पुरुक्षयाः सखणामानुषेषु ते स्मत्वाञ्चन्तकम् हसः सान्दवनामजरामाजजिष्णवः पिप्रीः देवागुम् देदैव्या ऋत्विजस्तेऽभिरग्ने त्वगिंहो दृणामस्यायतिष्ठा माग्नेर यदद्य विशो अध्वरस्य हो नह्वावकशोचेमेष्वगुं हि यज्वायजा महिनाभिरद्भोर्हमुहविष्ठजाते अद्य अग्निना रजिमस्नवद्वोषमेव दिवे दिवे यशसं वीरवत्तमम् ज्ञेयस्थानो अमी वहावसुवित्पुष्टिवर्धनः सुमित्रः सो मनो भव गृहमेधा स आगत मरुतो मापभूतनो नो अगुम्भसः ऊर्वेभिर्हि ददाशिमशरद्भर्मरुतो वयम् महोभिष्टर्षणीनाम् प्रवृद्धया वीरदेवो महागुंसिप्रणामानि प्रयज्य वस्तिरध्वम् उपजमे तिजुवति सुदक्षम् दोषावस्तोविष्मतीभृताची उपस्वैन मरमतिर्वसूयुः इमो अग्ने वेतमानि हविजाजस्रोवक्षि देवता तिमच्छा मृजुनयेकम् सुरभे निजम्बो क्रीडम् वश्यर्थो मारुतमनर्वाणगुम् रथे शुभम् कण्वा अभिप्रकाजत अत्या सोनरे मरुदस्वञ्चो यक्षदृशो न शुभजम् तमल्याः ते हर्ण्येष्ठाश्रिषवो न शुभ्रा जते सो न प्रक्रीडिनः शुभे ते क्रीडजोतनजोभ्राजदृष्टजस्वयम् महित्वम् पनयम् दधूतजः उपह्वलेषु किलचिध्वञ्जयिम् वयव स्तोतम् द्विकोशात् उपबोरथेष्वा हितमुक्षता मधुवर्णमर्चते अग्निनाग्निगुम् हवेमभिः सदा हवन्तविष्पतिम् हव्यमाहम् पुरुप्रियम् तगुम् हि शश्वम् धरीणते सुचा देवम् कृतस्तुताः अग्निगुम्हव्यजवोढवे इन्द्राग्निरोचनादिवस्यमिन्द्रम् वो विश्वतस्वरेन्द्रह्मरो विश्वकर्मण हविषा वा वृधानो विश्वकर्मण हविषा ओ